हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे कोनपञ्चाशर्गः संज्ञामुपेत्य श्रीरामस्य लक्ष्मणार्थं विलापः प्राणान् परित्यक्तुम् निश्चित्य तेन वानरान् प्रति गृहे निवर्तन निवर्तनायादेशस्य प्रदानम् घोरेण शरशब्देन बद्धो दश रसात्मजो निःश्वसन्तो यथा नागौ शयनौ हृदि रोक्षितौ सर्वे ते वा नरश्रेष्ठ तस्तु ग्रीव महाबलः परिवार्य महात्मानौ तस्तु शोकः परिप्लुतः एतस्मिन्नन्तरे राम प्रत्यबुद्ध्य वीर्यवान् स्थिरत्वात्त्वयोगा च चरे संदार नितो पिसं, सतो चरित सृष्ट सरुर निषण भ्रातरं दीन वदनमेव यदा किम नुमे सीतया कार्य लीवीते न शयान्य पशा भ्रातरम युधि निर्जित शक्यासिता समानारी मर्त्यलोके विचिन्वतः न न लक्ष्मण समो भ्रातः सचिव साम्परायिकः परित्यक्ष्याम्यहं प्राणां वानराणान्तु पश्यताम् यदि पञ्च समापन्नः सुमित्रानन्दवर्धनः किं नु वक्ष्यामि मातरम् किं नु कैकेयीम् कथम् अम्बां सुमित्रां च पुत्र दर्शनलालसाम् विभत्सां वेपमानां वे च वेपन्तीं कुरीमिव कथम् आश्वासयिष्यामि यदि यास्यामि दम् विना कथं भक्ष्यामि च यशस्विनं मया सह विना तेनाहमागतः उपालम्बम् न शक्ष्यामि सोढुमम् वासुमित्रय इहैव देहम् त्यक्ष्यामि न हि जीवितुमुत्सहे दिम्भाङ् दुष्कृतकर्माणम् अनार्यम् यत्कृते यशो लक्ष्मणम् पतितश्येते शरतल्पे गतासुव आश्वास श्रीलक्ष्मण गतासूर्नादि शक्तोऽसि मा तम् अभिभाषितुम् एनाद्य बहवो युद्धे निहता राक्षसाक्षितो तस्यामेवादिशूरस्तम् शेषेवि निहतशरै शयानश्चरतल्पेऽस्मिन् स शोणित परिसृत शरभूत ततो भासि भास्करोस्तम् इव व्रजन् बाणाभीहतमर्मत्वान् न शक्नोषिह भाषितुम् रुजा चाब्रूवतो यस्य दृष्टिरागेण सूच्यते यथैव माम् वनम् यान्तम् अनुयातो महाद्युतिः अहम् अप्यनुयास्यामि तथैवैनम् यमक्षयम् इष्ट बन्धु जनो नित्यम् मार्च नित्यमनुवृतः इमाम् अद्य गतोऽवस्थाम् मम नार्यस्य दुर्नयैः सुहृष्टेनापि वीरेण लक्ष्मणेन स संस्मरे विप्रियं चापि श्रावितं तु कदाचन विससजैकवेगेन पञ्चबाणशतनियः ईश्वरेश्वरे तस्मात् कार्तवीर्या च लक्ष्मण अश्री अस्त्राणयो हन्यात् शक्रस्यापि महात्मनः स्वयम् उर्व्यां हतशेते महार्ह राक्षसानां विभीषणः अस्मिन् सुग्रीव प्रति या तु मितोऽहसि मत्वा हीनम् मया तु पुरस्कृत्य स्वसैन्यम् च परिच्छदम् तरसुग्रीव नीलेन च नलेन च कृतम् हि सुमहत्कर्म यदन्ये दुष्करम् वृणे वृक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च अंगदेन कृतम् कर्म मन्देन द्विविधेन च युद्धम् केसरिणा सङ्ख्ये घोरम् सम्पातिना कृतम् गवयेण गवाक्षेण शरभेण गजेन च अन्ये च हरिभिर्युद्धम् मदर्थे त्यक्तजीवितैः न चाति कमितुम् शक्यम् दैवम् सुग्रीव मानुषै यत्तु शक्यम् वयस्येन सुहृद वा परम् मम कृतम् सुग्रीव तत्सर्वम् भवता धर्मभीरुणा मित्रकार्यम् कृतमिदम् भवद्भी वा नदर्शभाय अनुज्ञाता मया सर्वे यथेष्टम् गन्तुमर्हत् सुश्रूतश्च ये सर्वे वानरपरिदेवितम् वर्तयाञ्चकृ श्रोणि नेत्रे कृष्णेतरे क्षणः ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः आजगामा गदापाणि यत्र राघवे तम् दृष्ट्वा त्वरितम् यान्तम् नीलाञ्जनचयोपमम् वानरा दुद्रुः सर्वे मन्यमानासु रावणिं वित्याश श्रीमद् रामायणे वाल्मीकि अधिकाव्ययुद्धकाण्ड एकोनपञ्चाक्षे सर्गे श्री सीतारामचन्द्राणमास्तु